हरि ओम् श्रीस्रीता रामचन्द्रभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे एकचत्वारिंशे सर्गे श्रीरामेण सुग्रीवस्य दुःसहसाद्वारणम् लङ्कायाः चतुर्षु द्वारेषु वानरसैनिकानाम् नियुक्तिः श्रीरामदुप्तस्य अङ्गदस्य रावणभवने पराक्रमौ वानराणाम् आक्रमण पृक्षताम् भयम् अथ तस्मिन् निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः सुग्रीवम् सम्परिष्वज्य रामो वचनम् अब्रवीत् असम्मया सार्धम् तदिदम् साहसम् कृतम् एवम् जनेश्वरः संशये स्थाप्यमाम् चेदम् बलम् विभीषणम् कष्टम् कृतम् इदम् वीर साहसं साहसप्रिय प्रिय इदानीं मां कृथा वीर एवं वीरम्बरिन्दमे त्वयि किञ्चित् समापन्ने किं कार्यं सीतया मम भरतेन महाबाहु लक्ष्मणेन यवीयत शत्रुघ्नेन च शत्रुघ्न स्वशरीरेण वा पुनः त्वयि चानागते पूर्वम् इति मे निश्चिता मतिः जानत चापि ते वीर्यम् महेन्द्र वरुणोपम फट्वाहम् युद्धे सपुत्र बलवहनम् अभिषिच्य चलङ्कायाम् विभीषणम् अस्थापित भरते राज्यमारोप्य चक्षे देहम् महाबल वादिनं एवं वादिनम् रामम् सुग्रीवपत्यवाचत तव भार्यापहर्तारम् दृष्ट्वा राघव रावणम् मर्शयामे कथम् वीर जानन् विक्रममात्मनः इत्येवं वादिनम् वीरम् अभिनन्द्य च राघव लक्ष्मणम् लक्ष्मि इदम् वचनमब्रवीत् परिगृह्योदकम् चैतम् वनामि फलवन्ति चेत् बलौघम् संविभज्येमम् व्यूह तिष्ठामलक्ष्मण लोकक्षयकरम् भीमम् भयम् पश्याम्युपस्थितम् निबर्हणम् प्रवीराणाम् वृक्षवानरक्षसाम् वाताही परुशं वान्ति कम्पते चैव सुन्धर पर्वताग्राणि वेपन्ते नदन्ती धरणिधराय मेघा क्रव्यादसङ्काशाय परुषाय परुषस्वरः क्रूराक्रूरं प्रवर्षन्ते मिश्रं शोणितबिन्दुभि रक्तचन्द्र सङ्घाषा सन्ध्याय परमदारुणा गलच्च निपतत्येत आदि अग्निमंडल आदि अभिभाष्यनय महदय दीना दीन स्वरा घोरा अप्रशस्ता मृगद्व रजन्यम प्रकाशय चंद्रमताशु पर था लोक स संश ह्रस्र वृक्षो प्रशस्त परिवेश सुलोहितः आदित्यमण्डले नीलम् लक्ष्म लक्ष्मण दृश्यते दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते युगान्तमिव लोकस्य पश्य लक्ष्मण शन्तति ता साकाश्चेना तथा गृध्रा नीचै परि पतन्ति च शिवाश्चाप्यशुभावाच प्रवदन्ति मासनः शैले शैशूलैश्च खड्गै च विमुक्तैः कपि राक्षसै भविष्यति आवृता भूमिः मासशोणितकर्दमा क्षिप्रम् अद्य दुराधर्षाम् पुरीम् रावणपालितम् अभियामा जवेनैव सर्वतो हरिभिर्वृता इत्येवं तु वदन् वीरो लक्ष्मणं लक्ष्मणाग्रजः तस्माद्वातरशीघ्रम् पर्वताग्रान् महाबलः अवतीर्यः तु धर्मात्मा तस्मात् शैलात्स राघवः परे परम दुर्धर्शम् ददर्श बलमात्मनः तु सुग्रीव कपिराज बलम्ब कालज्ञो राघवकाले संयुगायाभ्यचोदय अभ्यचोदय ततकाले महाबाहु बलेन महतावृतः प्रस्थितः पुरतो धन्वी लङ्कामभिमुखपुरीं तं विभीषणसुग्रीवौ हनुमान् जाम्बव नलः वृक्षराज तथा नीलो लक्ष्मणश्चान्वयुस्तदा तथ पश्चात् सुमहति पूतनरुक्षेव नोकसाम् प्रच्छाद्य मातिम् भूमिम् अनुयाति स्मराघवम् शैव शृङ्गाणि शतशः प्रवृद्धां च महीरुहन् जगृः कुञ्जरप्रख्या वानरा परवारणः स्वदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ रावणस्य पुरीम् आसेद तूररिन्दमौ पताक मालिनीं रम्याम् उद्यानवनशोभिताम् चित्रवप्राम् सुदुष्प्रापाम् उच्चैः प्राकार तां सुरैरपि दुर्धर्षाम् रामवाक्य प्रचोदितः यथा निदेशम् सम्पीड्य न्यविशन्त वनौकसः लंकाया शैलशृङ्गम् विभोन्नतम् रामसहानजो धन्वी जुगोप च रुरोध च लङ्काम् उपनिविष्टस्तु रामोदशरथात्मजः लक्ष्मणा नो च यत्र तिष्ठति रावणः नान्यो रामाधितद्वारम् समर्थः परिरक्षितुम् रावणाधिष्ठितम् भीमं वरुणेनैव सागरम् रायुधै रक्षसे भीमै अभिगुप्तं समन्ततः लघूनाम् त्रासजननम् पातालम् इव दानवै विन्यस्तानि च बहुनी विविधानि च ददर्चा युधजालानि तथैव कवचानि च पूर्वं तु द्वारमासाद्य नीलोहरि च मूपतिः अतिष्ठय सह मन्दय च द्विविधेन च वीर्यवन् अङ्गलो दक्षिणद्वारम् जग्राह सुमहाबलः वृषभेण गवाक्षेण गजेन गवयेन च हनुमान् पश्चिमद्वारम् ररक्ष भलवान् कपिः प्रमाथि प्रहसाभ्याम् च वीरै अन्यै च सङ्गतः मध्यमे च स्वयम् गुल्मे सुग्रीव समतिष्ठत् स सर्वैः हरिश्रेष्ठै सुपर्णपवनोपमये वानराणां तु क्षत्रिं कोट्यः प्रख्यातयूतपः निपीढ्योपनिविष्टाश सुग्रीवो यत्र वानरः शासनेन तु रामस्य लक्ष्मण स विभीषणः द्वारे द्वारे हरिणाम् तु कोटिम् कोटिर्न्यवेशय पश्चिमेन तु रामस्य सुषेणः सह सा, सहजाम्बवान् सा, अधुरान् मध्यमे गुल्मे तस्थो बहुबलानुगः ते तु वा नरशार्दूला शार्दूला, शार्दूला इव दण्टिणः गृहीत्वा द्रुमशैलाग्रान् वृक्षायुद्धाय तस्य सर्वे विकृतलाङ्गूला सर्वे दण्ष्टा सर्वे विकृतचित्राङ्गे च विकृताननः दशा दश केचिदाश गुणोत्तरः केचिद् नागसहस्रस्य बभू तुल्यविक्रमः सन्ति चौघः केचित् केचित् तत्रैव नरसैन्यानाम् शलभानामिवोद्गमः परिपूर्णमिवाकाशम् सम्पूर्णैव च मेदिनी लङ्कामुपन्विष्टश्च सम्पतद्भिः च वानरः शतं शतसहस्राणाम् पूतनरक्षव नोकथा लङ्काद्वारा न्युपाजमु अन्य योद्धुम् समन्ततः आवृतः स यदि सर्वै तैतमन्ता प्रङ्गमे अयुतानां सस्त्रं च पुरीताम् अभ्यवर्तते वानरे बलवद्भिश्च बभूव द्रुमपाणिभिः सर्वतः सुमृतालङ्कार दुष्प्रवेशापि वायुना राक्षस विस्मयम् जग्मु सहसाभि वानरै मेघसङ्काशै शक्रतुल्य पराक्रमै महान् शब्दो भवत्तत्र बलौघस्याभिवर्तत सागरस्यैव भिन्नस्य यथा स्यात् तेन शब्देन महता स प्राकार लंका प्रचलिता सर्व स शैल वनकानन राम लक्ष्मणगुप्ता सा सुग्रेवेण च वाहिनी बभूव दुर्धर्षतरा सर्वैरपि सुरासुरै राघव सन्निवेश्यैव स्वसैन्यम् रक्ष सम्बधे सम्मन्त्र्य मन्त्रिभिः तारम् निश्चित्य च पुनः पुनः आनन्तर्यम् अभिप्रेप्तु क्रमयोगार्थसीत् विभीषणस्यानुमते राजधर्मम् अनुस्मरन् अङ्गदम् अंगदं लि तनयम् समाहूयेद्रुवीत् गत्वा सौम्या दशग्रीवम् ब्रूहि मद्वचनात् कपि लङ्घयित्वा पुरीं लङ्काम् भयं त्यक्त्वा गतव्यथ द्रष्टश्रीकं गतैश्वर्यम् मुमूर्छचेतनम् ऋषीणाम् देवतानां च गन्धर्वाप्सरसां प्रः नागराणाम् अथ यक्षाणां राज्ञां च रजनेचर यच्च पापं कृतं मोहात् अवलिप्ते न राक्षसे विगतो ते विगतो दर्पये स्वयम्भूवरदानजये तस्य पापस्य सम्प्राप्ता व्युश्चिदद्य दुरासदाय यस्य दण्डः धरत्तेऽहम् ाराय हरणकर्षितः दण्डम् धार्यमाणस्तु लङ्काद्वारे व्यवस्थितः पदवीम् देवतानाम् च महर्षीणाम् च राक्षस राजर्षीणाञ्च सर्वेषाम् गमिष्यसि युधिष्ठिरः बलेन येन वै सीताम् मायया राक्षसाधम महमतीक्रमयित्वा त्वम् कृतवान् तन्निदर्शय रक्षसंयमं लोकम् कट्टास्मि निशितैश्चरे न चेत् शरणमभ्येषि तामादायतु मैथिलीम् धर्मात्मा रक्षस श्रेष्ठ सम्प्राप्तोऽयम् विभीषणः लङ्कैश्वर्यमिदम् श्रीमान् दुरम् प्राप्नोत्यकण्टकम् नैराज्यम् अधर्मेण भोक्तुम् क्षणमपि त्वया शक्यम् मूर्ख सहायेन पापेन विदितात्मना युध्यत्वमाधृतिम् शोरम् आलम्ब्य रक्षस मच्छरे त्वम् ऋणेशान्ते ततः पूर्तो भविष्यति यद्या विशसि लोकान्तृन् पक्षीभूतो निचरे मम चक्षु पथम् प्राप्य न जीवन् प्रति यास्यसि ब्रवीमि त्वाम् हितम् वाक्यम् क्रियताम् ऊर्ध्वदेहिकम् सुदृष्टाय क्रियताम् लङ्का जीवितम् ते मूर्तिमान् निवहव्यवात्पत्य मुहूर्तेन श्रीमान् रावणमन्दिरं दर्शासि न भव्यग्रम् रावणम् सचिवै सह ततस्तस्याविदूरेण निपत्य हरिपुङ्गवै दीप्ताग्नि सदृशतर्थो अङ्गदः कनकाङ्गद तद्रामवचनं सर्वम् अन्यूनाधिकमुत्तमम् सामाप्त्यं श्रावयामास निवेद्यात्मानमात्मना दूतोऽहं गोसरेन्द्रस्य रामस्याक्लिष्ट कर्मणः व्या वालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्रमागतः आह त्वां राघो राम कौसल्यानन्दवर्धन निपत्यं प्रतियुध्यस्व दृशन्त पुरुषो भवे हन्तास्मि तां सहामात्यं स पुत्रज्ञाति बान्धवम् निरुद्विग्ना श्रेयो लोकाय भविष्यन्ति हते त्वयि देव दानव यक्षाणाम् गन्धर्वोरगरक्षम् शत्रुमद्यो हरिष्यामि तामृषीणां च विभीचनस्य चैश्वर्यम् भविष्यति हते स्वयि न चेत् सकृत्य वैदे प्रणिपत्य प्रदास्यसि इत्येवं परुषम् वाक्यम् गृवाणे हरिपुङ्गवे अवश्य वशमापन्नो निशाचार गणेश्वर ततस रोषमापात्र शशासचिवान् गुरुयतामिति इति वध्यतामिति बध्यतामिति चाचकरोत् रावणस्य वच श्रुत्वा दिप्ताग्निम् जा इव तेजस जगृहस्तं ततो घोरा चत्वारोचरः गाहयामासतारे यत् स्वयम् आत्मानमात्मवरं बलं वीरो या तु धन स तान् बाहुद्वया सक्तान् आदाय पतगान् प्रासादं शैलसङ्काशम् उत्पपाताङ्गदस्तदा तस्योत्पतः वेगेन निर्धूता तत्र राक्षसः भूमौ निपतिता सर्वे राक्षसेन्द्रस्य पश्यतः ततः प्रासाद चक्राम राक्षसेन्द्रस्य वाली पुत्र प्रतापवान् पफार तदा क्रान्तम् दश ग्रीवस्य पश्यतः पुराहिमवत शृङ्गम् वज्रेणैव विदारितम् भवा प्रासाद शिखरम् नाम विश्राव्य चात्मरः विनद्य सुमनादम् व्यथयन् राक्षसान् तरवान् हर्षयन् चापि वानरन् स वानराणाम् मध्ये तु रामपार्श्वम् उपायगतः रावणस्तु परञ्चक्रे क्रोधम् प्रासाद धर्षण विनाशम् चात्मनः पश्यन् निःश्वासः परमो भवेत् रामस्तु भवनदद्धि प्लवङ्गमे पुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत सुषेणस्तु महावीर्यो गिरिकूटोपमोहरी बहुभिः संवृतस्तत्र वानरे कामरूपिभिः चतुर्द्वाराणि संयम्य सुग्रीवचनात्कपिः पर्यक्रामतदुर्धशो नक्षत्राणीव चन्द्रमः तेषामक्षोहिणिशतम् समवेक्ष्य वनोकसाम् लङ्कामुपनिविष्टानाम् सागरं चाभिवर्तताम् राक्षस विस्मयम् जग्मुसम् जग्मु तथा परे अपरे समरे हर्षात् हर्षमेवोपेदिरे कृत्नं हि कपिभिव्याप्तम् प्राकारे परिखान्तरम् ददृशो राक्षसा दीना साकारम् वा नरीकृतम् हाहाकारम् अकुर्वन्त राक्षसः भयमागतः तस्मिन् महभीषणके प्रवृत्ते कोलाहले राक्षसराजयोध प्रगृह्य रक्षांसि महयुधनि युगान्तवाताैव तं विचेरु इत्याच्ये श्रीमद् रामायणे वाल्मीकि अधिकारे युद्धकाण्डे एकचत्वारिन्श सर्गे श्रीसीतारामचन्द्रार्पणमस्तु